अपराधसहस्राणि क्रियन्तेऽहर्निशम् मया दासोऽयमिति माम् मत्वा क्षमस्व परमेश्वरी आवाहनम् न जानामि जाना जाना न जानामि विसर्जनम् पूजाम् चैव न जानामि क्षम्यताम् परमेश्वरि मन्त्रहीनम् क्रियाहीनम् भक्तिहीनम् सुरेश्वरी यर्पूजितम् मया देवि परिपूर्णम् तदस्तु मे अपराधशतम् कृत्वा जगदम्बेति चोच्चरेत् याम् गतिम् समवाप्नोति न ताम् ब्रह्मादयः सुराः सापराधोऽस्ति शरणम् प्राप्तस्त्वाम् जगदम्बिके इदानीमरुकम् व्योऽहम् यथेच्छति तथा कुरु अज्ञानाद्विस्मृतेर्भ्रान्त्यायन्यूनमधिकम् कृतम् तत्सर्वम् क्षम्यताम् देवि प्रसीदपरमेश्वरी कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे गृहाणार्चामि माम् प्रीत्या प्रसीदपरमेश्वरी गुह्यादिगुह्यगोत्री त्वम् गृहाणास्मत्कृतम् जपम् सिद्धिर्भवतु मे देवि त्वत्प्रसादात्सुरेश्वरी श्रीदुर्गार्पणनमस्तु